नारदपुराणं पूर्वार्धम् अध्यायं हण्ड्रेड् अण्ड् फैव् ब्रह्मोवाच शृणुवत्स प्रवक्ष्यामि पुराणं वामनाभिधं त्रिविक्रमचरित्राढ्यं दशसाहस्रसङ्ख्यकं कुर्म कल्पसमाख्यानं वर्गत्रयकथानम् भागद्वयसमायुक्तं प्रश्न पुराणप्रश्नप्रथमम् ब्रह्म शीर्षचिदा ततः कपालमोचनाख्यानम् दक्षयज्ञविहिंसनम् अरस्य कालरूपाख्या कामस्य दहनम् ततः प्रह्लाद नारायणयोर्युद्धम् देवासुराहवः सुकेश्यर्क समाख्यानम् ततो भुवनकोशकम् तथा काम्यव्रताख्यानम् श्री दुर्गाचरितम् ततः पश्चात् कुरुक्षेत्रस्य वर्णनम् सत्यामाहात्म्यमधुलम् पार्वतीजन्मकीर्तनम् तपस्तस्या विवाहश्च गौर्युपाख्यानकम् ततः तद कौशिक्युपाख्यानम् कुमारचरितं ततः तदोऽन्धकवधाख्यानं साध्योपाख्यानकं ततः जाबालिचरितं पश्चात्तरजाया कथाद्भुधा अन्धकेशरयोर्युद्धं गणत्वं चान्धकस्य च मरुदां जन्मकथनं बलेश्च चरितं ततः ततस्तु लक्ष्म्याचरितं त्रायि विक्रममतः परं प्रह्लाद ीर्थयात्रायाम् प्रोच्यन्तेथ कथाशुभः ततश्च दुन्दुचरितम् प्रेदोपाख्यानकम् तदः नक्षत्रपुरुषाख्यानम् श्रीधामचरितम् ततः त्रिविक्रमचरित्रान्ते ब्रह्मप्रोक्तस्तवोत्तमः प्रह्लादबलिसंवादे सुतले हरिशंसनम् इत्येष पूर्वभागोऽस्य पुराणस्य तवोदिदः कृणदोस्योत्तरं भागं बृहद्वामनसंज्ञकं माहेश्वरी भागवती सौरि गणेश्वरी तथा च दस्रसंहिताश्चात्र पृदसहस्रसंख्यया माहेश्वर्यां तु कृष्णस्य तद्भक्तानां च कीर्तनं भागवत्यां जगन्मा दुःखतारकदाद्भुदा सौर्यां सूर्यस्य महिमागदिदपावनाशनः गाणेश्वर्यां गणेशस्य चरितं च महेशिदुः इत्येतद्वामनं नाम पुराणम् सुविचित्रकम् पुलस्त्येन समाख्यातं नारदाय महात्मने तदो नारदतः प्राप्तं व्यासेन सुमहात्मना व्यासा तु लब्ध वांश्चैदत्तच्छिष्योरोमहर्षणः स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च येवं ये परम्पराप्राप्तं पुराणं वामनं शुभं ये पठन्ति शृण्वन्ति देवी यान्ति पराङ्गतिं लिखित्वैतत्पुराणं तु यः शरद्विषु वेऽर्पयेद् विप्रायवेदविदुषे स समुद्धृत्य नरकान् नयेत्स्वर्गम् पितृन् स्वकान् देहान्ते भुक्त भोगोऽसौ यादिविष्णोः परं पदम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थ पदे वामनपुराुक्रमणी वर्णन नाम पंचाधिकम्याय